भक्ष्य यथा भोज्य विविध कामस्कृत रत्नौतर्पित्वृतस्वी चशस्वी चृपेभ्योभ्यधिको भव एतस्मात् कारणाद् राजन्हरिश्चन्द्रो विराजते तेभ्यो राजसहस्रेभ्यस्तद्विद्धिभरतर्षभा समाप्य च हरिश्चन्द्रो महायज्ञं प्रतापवान् अभिषिक्तश्च शुशुभे साम्राज्येन ये चान्ये च चा महीपाला राजसूयमहाक्रतुं यजन्ते ते च हेन्द्रेणा मोदन्ते भरतर्षभा ये चापि निधनं प्राप्ताः सङ्ग्रामेश्वपलायिनः ते तत्सदनमासाद्या मोदन्ते भरतर्षभा तपसाये च तीव्रेण त्यजन्ति ह कलेवरं ते तत् स्थानं समासाद्य श्रीमन्तो भन्ति नित्यशः पिता चत्वारः कौन्तेया पाण्डुः कौरवनन्दना हरिश्चन्द्रे दृष्ट्वा नृपतौ जात विस्मयः विज्ञायमानुषं लोकमायान्तं मां न राधिपा प्रोवाच प्रणतो भूत्वा युधिष्ठिरं युधिष्ठिरम् समर्थोऽसिमहिं जेतुं भ्रातरस्ते स्थितावशे वशे राजसूयं क्रतुश्रेष्ठमा हरस्वेति भारत